मकंडेयपुराण 28 जड उवाच तन्मा तुर्वचनम श्रुवा सोलर्को मातरं पुनः पप्र च वर्णधर्माश्च धर्मा चाश्रम अलर्क उच कथितोऽयं महाभागे राज्यतन्त्राश्रितस्त्वया धर्मं तमहमिच्छामि श्रोतुं वर्णाश्रमात्मकं मदालसोवाच दानमध्ययनं यज्ञो ब्राह्मणस्य त्रिधा मदः नान्यश्च दुर्धो धर्मोऽस्ति धर्मस्तस्यापदं विना यजनाध्यापने शुद्धे तथा पूतप्रतिग्रहः एषा सम्यक् समाख्यता त्रिविधा चास्य जीविका दानमध्ययनं यज्ञः क्षत्रियस्याप्ययं त्रिधा धर्मः प्रोक्तः क्षुदे रक्षा दानमध्ययनं यज्ञो वैशस्यापि त्रितैव सह वाणिज्यं पाशुपाल्यञ्च कृषिश्चैवास्य जीविका दानं यज्ञोध शुश्रूषाद्विजादीनां त्रिधा मया व्याख्यातशूद्रधर्मोऽपि जीविका कारुकर्म तद्वद्विजादिशुश्रूषा पोषणं क्रयविक्रयौ वर्णधर्मास्त्विमे प्रोक्ताश्रूयन्तां चाश्रमाश्रयाः स्ववर्णधर्मात् संसिद्धिं नरः प्राप्नोति नच्युतः प्रयादि नरकं प्रयत्यप्रदिषिद्धनिषेवणाद यावत्तु नोपनयनं क्रियते वै द्विजन्मनः कामचेष्टोक्तिभक्ष्यश्च तावद्भवति पुत्रक कृतोपनयनः सम्यग्ब्रह्मचारी गुरुर्गृहे वसेत्तत्रज धर्मोऽस्य कथ्यतेदं निबोधमे स्वाध्यायो धाग्रिशुश्रूषास्नानं भिक्षाडनं तथा गुरोर्निवेद्य तच्चान्नमनुज्ञातेन सर्वदा गुरो कर्मणि सोद्योगः सम्यक् प्रीत्युपपादनं तेनाहूतः पठे चैव तत्परो नान्यमानसः एकम द्वौ सकलान् वापि वेदान् प्राप्य गुरोर्मुखात् अनुज्ञातो ध वन्दित्वा दक्षिणां गुरवेततः गार्हस्थाश्रमकामस्तु गृहस्थाश्रममावसेत् वानप्रस्थाश्रमं वापि चतुर्थम् चेच्छयात्मनः तत्रैव वा गुरोर्गेहे द्विजो निष्ठामवाप्नुयात् गुरोरभावेत्तत्पुत्रे तच्छिष्ये तत्सुतं विना शुश्रूषुर्निरभिमानो ब्रह्मचार्याश्रमं वसेद उपावृत्तस्तदस्तस्माद् गृहस्थाश्रमकाम्यया तदो समानर्षिकुलां तुल्यां भार्यामरोगिणीं उद्वहेन्ना यदो व्यङ्गां गृहस्थाश्रमकारणाद् स्वकर्मणा धनं लब्ध्वा पितृदेवातिथींस्तथा सम्यक् संप्रीणयन्भक्रिया पोषये चाश्रितांस्तथा भृत्यात्मजाञ्जामयोध दीनान्धपतितानपि यथा शक्त्यान्नदानेन वयांसि पशवस्तथा यशधर्मो गृहस्थस्य हृदावभिगमस्तथा यदा पञ्चयत्नविधानन्तु यथा शक्रियानहापयेद् दे। पितृदेवाधिज्ञादिभुक्तशेषं स्वयं नरः गुञ्जीतच च समं भृत्यैर्यथा विभवमादृतः एष तूदेशतः प्रोक्तो गृहस्थस्याश्रमो मया वानप्रस्थस्य धर्मं ते कथयाम्यवधार्यताम् अपत्यसन्ततिम् दृष्ट्वा प्राज्ञोचानीतं वानप्रस्थाश्रमम् गच्छेदात्मनः शुद्धिकारणादारण्योपभोगश्च तपोभ्यश्चानुकर्षणं हूमौशय्याब्रह्मचर्यं पितृदेवातिधिक्रिया होमस्तृशवणस्त्राणं जडावल्कलधारणं योगाभ्यासः सदा चैव वन्यस्नेहनिषेवणम् इत्येष पापशुद्ध्यर्थमात्मनश्चोपकारकः वानप्रस्थाश्रमस्तस्माद्भिक्षोस्तु चरमोऽपरः चतुर्धस्य स्वरूपं तु श्रूयतामाश्रमस्य मे यस्वधर्मोऽस्य धर्मज्ञैः प्रोक्तस्तादमहात्मभिः सर्वसङ्गपरित्यागो ब्रह्मचर्यमकोपिता यथेन्द्रियत्वमावासे नैकस्मिन् वसति स्थिरम् अनारम्भस्तथाहारो भैक्षान्येनैककालिना आत्मज्ञानावबोधेच्छ तथा चात्मावलोकनम् चतुर्थे त्वाश्रमे धर्मो मया यं ते निवेदितः सामान्यमन्यवर्णानामाश्रमाणां जमे शृणु सत्यं शौचमहिंसा च अनसूया तथा क्षमा आदृशंस्यमकार्पण्यं सन्तोषश्चाष्टमो गुणः ये ते संक्षेपधः प्रोक्ता धर्मा वर्णाश्रमेषु ते एतेषु च स्वधर्मेषु स्वेषु तिष्ठेत् समन्तदः यश्चोल्लङ्घ्यस्वगं धर्मं स्ववर्णाश्रमसंधं नरोऽन्यथा प्रवर्तेद स दण्ड्यो भूभृतो भवेद् ये च स्वधर्मसन्ध्यागात् पापं कुर्वन्ति मानवाः उपेक्षतस्तान् नृपदेरिष्टापूर्तं प्रणश्यति तस्माद्राज्ञा प्रयत्नेन सर्वे वर्णाः स्वधर्मतः प्रवर्तन्तोऽन्यथा स्वकर्मसु श्रीमाकंडेयपुराणे पुत्रुशास मदसवाक्यम नाम अष्टाशोध्याय